एवत्यञ्जावद् दशकम् कंसवदम् प्रातत्सन्त्रस्तभोजक्षितिपतिवचसा प्रस्तुते मल्लतूर्ये सङ्गे राज्ञाम् च मञ्चानबियुषिगते नन्दगोपेऽपि हर्म्यम् कंसे सौदादिरूढे त्वमपि सगबल चानुगश्चारुवेषो रङ्गद्वारम् गतो भू कुपितकुवलया भीटनागावलीठम् पाभीष्टाबेगिमार्गात् धृतमिति वचसा निष्ठुरक्रुद्धबुद्धे अम्बष्टस्य प्रणोधा ददिकजवजुषा हस्तिना गृह्यमाण केलीमुक्तोत गोऽपि कुचकलशिर स्पर्दिनम् कुम्भमस्य व्याहात्यालीयतास्त्वम् शरणभुवि पुनर्निर्गतो वल्गुहासीम् हस्तप्राप्योऽप्यगम्यो झटिति जनस्येव धावन् गजेन्द्रम् पुनरविपतत तस्य दन्तम् स जीवम् मूलादुन्मूल्य तन्मूलकमहितमखा मौक्तिकान्यात्ममित्रे प्रादास्वं हारमेभिर्लितविरचितम् राधिकायै दिशेति घृत्नानम् दन्दमंसे युदमत हलिन रङ्गमङ्गाविशन्तम् त्वा मङ्गल्याङ्गभङ्गी रभसहृदमनो लोचनावीक्ष्य लोका हंहोदन्योऽनुनन्दो नहि न हि पशुपालाङ्गना नो यशोधा नो नोदन्ये क्षणा स्म त्रिजगति वय निरवति परमानन्दशान्तप्रकाशम् गोबेषु त्वम् व्यलासी न खलु बहु जनैस्तावधावेति दो भू दृष्ट्वा तत् त्वाम् तथेतम् प्रथममु बजते पुण्यकाले जनौघ पूर्णानन्ता विपाप वकृतानि स्मृतानि चाणूरो मल्लवीर तदनु नृपगिर मुष्टिको मुष्टिशाली त्वाम् रामम् चाबिबेते जटजटिति मितो मुष्टिपातातिरुक्षम् उत्पादापादनाकर्षण विवितरणान् यासताम् तत्र चित्रम् मृत्यो प्रागेव मल्ल प्रभुरगमदयम् भूरिशो बन्तमोक्षान् हाधिकष्टम् कुमारौ सललितवपुषौ मल्लवीरौ कठोरौ नत्रक्ष्यामो द्रक्ष्यामो व्रजाम त्वरितमिति जने भाषमाणे तदानी चाणूरम् तम् करोत् भ्रमाणविगलदसुम् भोतयामासितो्याम् पिष्टो बुन्मुष्टिकोऽपि द्रुतमतहलिना नष्टचिष्टेर्दधावेम् <laughs> कंसः संवार्य तूर्यम् कलमदिरविदन् कार्यमार्यान्पिदृंस्तान् आहन्तुम् व्याप्तमूर्ते तव च समचिषद् रोरमुत्सारणाय रुष्टो दुष्टोऽग्निभिस्त्वम् गरुड इव गिरिम् मञ्चमञ्चन्मुदम् च गढ्यप्यावल्गतु शङ्कर हमपि चकडात् प्राग्रहीरौग्रसेनीम् सद्यो निःपिष्टसन्धिम् भुवि नरपती मापात्य तस्योपरिष्ठात् त्वय्यापात्येतदैव त्वदुपरिपतिता नाकिना पुष्पवृष्टि किम् किम् ब्रूमस्तदानि सततमपि बियाम् त्वद्गतात्मा सबेजे सायुज्यम् त्वद्वदोत्था परमपरमियम् वासनाकालनीमये तद्भ्रादृणष्टभिष्ट्वा द्रुतमतपितरो सन्नमन् उग्रसेनम् कृत्वा राजानमुश्चैन् यदुकुलमखिलम् मोदयन् कामदानै भक्तानामुत्तमम् चोद्धवममरगुरो आब्दनीतिम् सहायम् पवनपुरपते रुन्दिमे सर्वरोका कृष्णबोल् कृष्णबोल् कृष्ण बोल, कृष्ण कृष्ण, बोल। राधा समेधशी कृष्ण बोल।